हरि श्री सीतारामचन्द्र अभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे सप्तदशाधिकशतमः श्री रामस्य पार्श्वे देवानाम आगमनम् ब्रह्मणा तस्य भगवत्ताया प्रतिपादनं स्तवनम् च ततो हि दुर्मणा रामः श्रुत्वैवं वदताम् गिरः धर्मात्मा व्याकुल व्याकोचन है तथो वै श्रवण राजा यमश पितृभीसाच देश वरुण जले नयन श्रीमा महादेव वृषधर एसे सर्व सगम्यूर्य आगम्य नगरीम् लङ्काम् अभि जग्मो च राघवम् ततः सभरणा प्रगृह्य विपुलां भुजन् अब्रुवन् त्रिदश श्रेष्ठा राघवम् प्राञ्जलिं स्थितम् कट्टा सर्वस्वलोकस्य श्रेष्ठो ज्ञानविधाम् विभु उपेक्षसे कथं वीताम् पतन्तीं कथं देव गणश्रेष्ठम् आत्मानं नावबुध्यसे ऋतधावा वसुपूर्वम् वसूनां च प्रजापतिः त्रयाणामपि लोकानाम् आदिकर्ता स्वयं प्रभु रुद्राणाम् अष्टमो रुद्र साध्यानाम् अपि पञ्चमः अश्विनो चापि कर्णोति सूर्याचन्द्रमसो अन्ते चादौ च मध्ये च दृश्यसे च परन्तप उपेक्षते च वैदेहीं मानुष प्राकृतो यथा इत्युक्तो लोकपालयस्थै स्वामी लोकस्य राघव अब्रवीत्री दश श्रेष्ठान् रामो धर्मभृताम्बरः आत्मानं मानुषं मन्ये रामं दशरथात्मजम् सोऽहं यश्च यत चाहं भगवान् तवीतु भ्रवाणम् काकुत्स्थम् ब्रह्मा ब्रह्मविदाम्बरः अब्रवी शृण्वे वाक्यम् सत्यं सत्य पराक्रम भवान् नारायणो देव श्रीमान् चक्रायुध प्रभ अक्षरं ब्रह्म च मध्ये चान्ते च राघवे लोकानां तं परो धर्मो विश्वक्षे न चतुर्भय शालधन्वा ऋषिकेश पुरुष पुरुषोत्तमः अजितः खड्गदृग् विष्णु कृष्णश्चैव बृहद्बलः सेनानिर्ग्रामणैश्च त्वं बुद्धिः सत्त्वं क्षमादमः प्रभवश्चाप्ययश्च त्वम् उपेन्द्रो मधुसूदनः इन्द्रकर्मा महेन्द्रत्वम् पन्मना भोरणा शरण्यं चरण दिव्या महर्ष सहस्रशंगो देवात्मा शतजीशो महर्षभे तम त्रयाण हि लोकाना आदिकर्ता स्वयं प्रभु सिद्धा साध्या आश्रये चासी पूर्वजहे तम यज्ञस्तंब परास्परः प्रभवम् निधनं चापि नो विदू को भवनिति दृश्यते सर्वभूतेषु शु। गोषु च ब्राह्मणेषु च दिक्षु सर्वासु गगने पर्वतेषु नदीषु च सहस्रचरण श्रीमान् शतशेष सहस्रधृ तम् धारयति भूतानि पृथ्वीं सर्वपर्वताम् अन्ये पृथिव्यास लीले दृश्यते तन्न त्रिलोकान्धारयं राम देव गन्धर्वधाने हृदयं राम जिह्वा देवी सरस्वती देवा रोमाणि गात्रेषु ब्रह्मणा निर्मिता प्रभ निमेषात्रि उन्मेषु दिवसस्तथा संस्कारा स भवन् वेदा नैतदस्ति त्वया विना जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् अग्निकोपप्रसादस्ते स्वम श्रीवत्सलक्ष्मणः त्वया लोका श्रे काक्रान्ता पुरा सीता लक्ष्मीर्भगवान् विष्णु देव कृष्ण प्रजापतिः वधार्थं रावणस्येह प्रविष्टो मानुष्यं तनु तदिदं न त्वया कार्यम् कृतं धर्म भृताम्बर निहतो रावणो राम प्रवृष्टो दिवमाक्रमः अमोघं देव वीर्यं ते न ते पराक्रमः अमोघम् दर्शनम् राम अमोघस्तव संस्तवः अमोघाते भविष्यन्ति भक्तिमन्त्रो नर भुवि ये त्वाम् देवं ध्रुवं भक्ता पुराणम् पुरुषोत्तमम् प्राप्नुवन्ति तथा कामान् इह लोके परत्र च इममाशं तमं दिव्यम् इतिहासं ये नरा कीर्तयिष्यन्ति नास्ति तेषां पराभव इत्याशि श्रीमद् रामायणे वाल्मीकी अधिकारे युद्धकाण्डे सप्तदशाधिकशतसमर्गः श्रीसीतारामचन्द्रार्पणमस्तु